आकाशवाणी सम्प्रति वार्ता श्र प्रवाचकः परमानन्द झा प्रथमं मुख्यवार्ता निर्वाचनम् बिहारप्रदेशे विधानसभा निर्वाचनानां प्रथमे चरणे ह्यः प्रतिशतं त्रिपञ्चाशत् प्रायै मतदातृभिः स्वीय मताधिकार प्रयुक्तः प्रतिरक्षामंत्री राजनाथ सिंह सीमनी साम्प्रतिक्या सुरक्षा सफलतया सम्मुखीकरणे भारतीय सैन्यानां भूमिकां भृशं प्राशंसत् कोविड देशे सम्प्रति कोरोना संक्रमणात् स्वस्थतां गतानां जनानां प्रतिशतता प्रवर्ध्य नवति दशमलव अष्ट पञ्चांश परिमिता संवृत्ता दिल्ली विश्वविद्यालयस्य कुलपतिः प्रो योगेश त्यागी कर्तव्य प्रमादारोपात् निलम्बितः एकविंशात् षड्विंश वर्ष पर्यन्तावध स्वीयम् अन्तिम प्रति श्व समर्पयिष्यता बिहार बिहारप्रदर्शि विधानसभा निर्वाचनानां प्रथमचरणशतं त्रिपञ्चाशत् प्रायै मतदातृभि स्वीय मताधिकार प्रयुक्तः मुख्य निर्वाचनायुक्तः सुनील अरोड़ा नवदिल्ल्यां वार्ताहरान् व्यज्ञापयत् यन्मतदानावधौ तत्र वीवीपैट इति प्रदत्त मत प्रदर्शक यन्त्रेष् विकृते विरलैव संप्राप्ता। श्री अरोडा राज्यस्य मतदातन् अध्यर्थितवान् यत्ते ते अवशिष्टे चरणद्वयेऽपि एवमेव सोत्साहं भागमुपगृहणीय् कोविड् प्रकोपकालेऽपि मतदानानां प्राक्तनाभिलेखांश्व अतिक्राम्यन्ति प्रतिरक्षामन्त्री राजनाथसिंह सीम्नि साम्प्रतिक्या सुरक्षा स्थिते सफलतया सम्मुखीकरणे भारतीय सैन्यानां भूमिकां भृशं प्राशंसत् ह्यो नवदिल्ल्यां समायोजिते सैन्याधिकारि सम्मेलने श्रीसिंह अब्रवीत् यत् विगतदिवसेष् सीमाक्षेत्रे सैन्यै प्रदर्शितेन प्रतापेन देशोऽयं सुतरां नितरां गौरवान्वितो जातोऽस्ति तेनोदीरितं यत् प्रशासनं सकलेष्वपि क्षत्रि परिष्कार प्रक्रियाया सोत्साहं प्रवर्तने सैन्य सर्वसम्भवं सौविध्यजातम् उपलम्भयित् प्रतिबद्धमास्ति कोविड भारत कोविड ऊनविंशति महामारीं विरुध्य महत्वाधायि साफल्यं समासादितमस्ति दर्श कोरोना संक्रमणात् स्वस्थतां जनानां प्रतिशतता प्रवर्ध्यते नवति दशमलव अष्टपञ्चांश परिमिता सूच्यते। सूच्यता विगतास् होरासु प्रायश ऊनषष्टि सहस्रं जना कोविड महामारीतो विमुक्ता इमां समेत्य सम्प्रति रोगविमुक्तानां भारतीयानां संख्या देशे सार्ध द्विसप्तति अपरतो महारोगेणैत षड्लक्ष प्राया जना साम्प्रतं संक्रमिता सूच्यन्ते स्वास्थ्य मन्त्रालयो ब्रूते यत् अहोरात्रे कोरोनया अष्टोत्तर पञ्चशतं जनाः प्राणैर्वियुक्ताः दिल्ली विश्वविद्यालयस्य कुलपतिः प्रो योगेश त्यागी कर्तव्यप्रमादारोपात् निलम्बितोऽस्ति विश्वविद्यालयस्य अतिथि पर्यवेक्षकत्वाद् राष्ट्रपतिना श्रीरामनाथ कोविन्देन तं विरुध्य कर्तव्यनिर्वहणे तथोक्तानां प्रमादारोपाणाम् शिक्षामन्त्रालयेन समाक्षिप्तं यत् प्रोफेसर त्यागी विश्वविद्यालयस्य वैधानिक प्रावधानानाम् अनुरूपं प्राशासनिकानि कर्तव्यानि नैव संचालयति स्म तत्कारणात् एतत्संस्थाया सामान्या क्रियाकलापा दृष्प्रभाविता तत्र कतिचन विसंगतयश्च संसूचितादश वित्तायोगेन प्रवर्तमानशताब्द्या एकविंशात् षड्विंश वर्ष पर्यन्तावधे स्वीयमन्तिम प्रतिप्रि श्व समर्पयिष्यता अस्यायोगस्य अध्यक्ष एन के सिंह अन्य सदस्याश्च एतदायोगस्य विगतै त्रिभिदध्यक्षै सार्धं विगत दिवस आन्तर्जालिकीं मन्त्रणामायोजितवन्तः